नारायणीयं दशकं सेवेन्टीन् मीटर् वसन्ततिलकम् उत्थानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचेर्नितरामभीष्टा अन्या सुनीदिरिति भर्तुरना धृता सा त्वामेव नित्यमगधिशरणम् गभूत् अङ्गे पिदुःसुरुचि पुत्रकमुत्तमं तम् दृष्ट्वा ध्रुव किल सुनीति आचिक्षिपे किल शिष्युः सुतराम् सुरुच्या दुःसन्त्यजा खलु भवद्विमुखैरसूया त्वन्मोखिदेऽपि दरि पश्यति दारवश्ये दूरं दुरुक्तिनिषदः सगदो निजाम्बाम् सापि स्वकर्मगदि सन्तरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस आकर्ण्यसोऽपि भवदर्चननिश्चितात्मा मानी निवेद्य नगरात् किल पञ्चवर्षः सन्दृष्टनारदनिवेदितमन्त्रमार्गस्त्वामारराध तपःसा मधुकाननान्दे तादे विषण्णहृदये नगरीं गदेन श्रीनारदेन परिशान्द्विदचित्तवृत्तौ बालस्त्वदर्पितमन्नाक्रमवर्धितेन निन्ये कठोरतपसा किलपञ्जमासान। पञ्चमासान् तावत्तपो बलनिरुच्छ्वसि दे दिगन्धे देवार्थितस्त्वमुदयः त्वद्रूप चिद्रस निलीनमदेः पुरस्तादाविर्बभूविध विभो गरुडाधिरूढः त्वद्दर्शनप्रमदभारतरङ्गित तं दृग्भ्याम् निमग्नमिवरूपरसायने ते तुष्टुषमाणमवगम्यकपोलदेशे संस्पृष्टवानसि दरेण तथादरेण तावद्विबोधविमलं प्रणुवन्दमेन माभाषधास्त्वमवगम्य तदीयभावं राज्यं चिरं समनुभूय भजस्व भूय सर्वोत्तरं ध्रुवपदं विनिवृत्तिहीनम् इत्योचिषित्वयि गदे नृपनन्दनो सावानन्दिताखिलजनो नगरीमुपेतः रेमे चिरम् भवदनुग्रहपूर्णकामस्तादे गदे च वनमादृतराज्यभारः यक्षेण देवनिहदे पुनरुत्तमेस्मिन् यक्षै स युद्धनिरधो विरधो मनूक्रिया शान्ध्या प्रसन्नहृदयाद्धनदा दुपेता त्वद्भक्तिमेव सुदृढा मवृणोन्महात्मा अन्दे भवत्पुरुषनिदविमानयादो मात्रा समं ध्रुवपदे मुदितो यमास्ते एवं स्वभृत्यजनपालनलोलधिस्त्वं वादालयाधिपनिरुन्धिममाम यौखान् ॐ सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द